च समे मे सूणृताः सूनृता च समे पयश्च शमे मे रसः रसश्च चमे मे धृतम् धृतम् च समे मे मधु मधु च समे मे सग्भिः समे ए मे सपीतिः सपीतिश्च सपीतिरिति सा समे मे कृषिः कृषिश्च समे मे वृष्टिः वृष्टिश्च समे मे जैत्रम् जैत्रम् च समे ए औद्भिद्यम् च औद्भिद्यमित्यौ च मे रयिः रयिश्च चमे मे रायश्च चमे मे पुष्टम् पुष्टम् समे मे पुष्टिः पुष्टिश्च चमे भुच विभृति वि मे प्रभु प्रभु च प्रभृतिप्र मे बभु बभुच समेः मे भूयः भूयश्च समे मे पूर्णम् पूर्णम् समे मे पूर्णतरम् पूर्णतरम् च पूर्णतरमिति पूर्णतरम् समे मे क्षितिः अक्षितिश्च समे मे कूयवाः कूयवाश्च समे मेऽन्नम् अन्नम् च समे मे क्षुत् अक्षुच्च समे मे व्रीहयः व्रीहयश्च समे मे यवा आह यवाश्च समे मे मासा आह मासा समे मे तिला आह तिला आश्च समे स्त समे मे खलवा आह खल्वा आस्तु समे मे गोधूमा आह गोधूमा आस्त समे मे मसुरा आह मसुरा आस्मे ए मे प्रियङ्गवः प्रियङ्गवश्च समे ए मेणवः अणवस्त त्वमे मे श्यामाका आह श्यामाका आश्च मे नीवारा आह नीवारा आश्च क्षमे म इति ucca samē nē sūntāḥ sa